अथ द्वितीयकाण्डे द्वितीयः प्रश्नः प्रारम्भः जतता सृष्टा इन्द्राग्निपागोहता प्रजापतिरिन्द्राग् वै मे प्रजा अपागच्छतायि इन्द्राट्मैकादशकपालमपश्यत् अन्यभत्ता वस्मै प्रजा प्रासादयतामिन्द्राग्नीतस्य प्रजामगो हतो प्रजायीशं प्रजा न इन्दत इन्द्राट्मैकादशकपालं निर्पवेत् प्रजा काम इन्द्रा ेन भारते येनोपधावतितामेवास्मि प्रजार्थयुतो विन्दते प्रजामयीन्द्राग् स्पर्धमानः क्षेत्रे वासजाते शुवेन्द्राज्ञी एव स्वेन भारते येनोपधावतिताभ्यामेवेन्द्रियं वीर्यं भादु यात्मना प्रादुर्येण दीयते भवा एतस्मादिन्द्रियं वीर्यं ग्रामदियसंग्राम भव मेकादशगवालं निर्भवेत् सङ्ग्रामप्रयात्यन्द्राग्नि अस्मिन्ेन्द्रियं वीर्यं धत्तो नेन्द्रियेण वीर्येण व्यर्थ्यते भवा एतस्मादिन्द्रियं वीर्यं ग्रामधियेति जनतामेन्द्राज्ञमेकादशवान् निर्भवेत् जनतामेश्यन्निन्द्राग्नी एव स्वेन भागधेयेनोपधावता वेवास्मिन्न्द्रियं वीर्यं धत्तस्सहेन्द्रियेण वीर्येण जनतामेति पौष्णञ्जलमनुनिर्भवेत् पोषा वा इन्द्रियस्य वीर्यस्यानुप्रदाता पूषणमेव स्वेन भागधेयेन सेवास्मा इन्द्रियम् वीर्यमनुपयच्छति क्षैत्रभत्यञ्जुरम्पवेतामागत्येयम् वै क्षेत्रस्य वजुरस्यामेव प्रतिष्ठत्येन्द्राज्ञमेकादशिबालमपरिष्टान्पवेदस्यामेव प्रतिष्ठायेन्द्रियम् वीर्यमपरिष्टादात्मन्धत्ते ये पथि कृते पुरोणाशमष्टाकपालं न्योदलश पूर्णमास यादी सन्नमाभास्याम्बा पूर्णमासीं वाजिपादये अथो वा एषोद्यपदे त्र्योदर्शपूर्णमास याजी सन्नमाभास्याम्बा पूर्णमासीं वाजिपादयेत्यग्निमेव कृत तस्मै न भागदे येनोप धाव स एव पन्धामकुलेत्य नड्वान् दक्षिणाभिःपतये ष्टाकपालं निर्वपेद्योपधावति स एवं रक्षागुरन्व रक्षोहनस्वेन भागधे येनोपधावति स एवास्मात् रक्षाहन्ति या निर्पेन्निषिता या गुभिक्षागं सुप्रेरते <Sess> क्षमनाराय वाक्ये भवतो रक्षसाकस्कृत्याग्नये रुद्रवने पुरोडाशमष्टाकपालन्यर्पवेदनिजरन्नैषा वाहस्य घोरातनोर्यदरुद्रस्तस्मादेवैश्चनयेमदे पुरोडाशमष्टाकपालन्यर्पवे वा पुरुषा वा प्रमेयैर्णयो वा विधीया देशा वा श्रीवे शुशङ्करा भवति पूजे गन्धस्यापहत्या पुरोडा समष्टाकपालन् नृपवेत् संग्रामे संयुते भागधेये नैवेयमपरे प्रमेयं दे पुरुषायस्य प्रियतमात्मयेक्षामते पुरोडा समष्टाकपालन् नृपवेत् भागधेये ैषाम् पुरायुषा परप्रमेय देऽभि वा एष एतस्य गृहानुच्छे गृहान्धहत्यग्नयेक्षामदे पुरोडाशमष्टाकपालन्निर्पवेद्धागधेयेनैवै नगो शमयजनाश्चापरम् गृहान्धहति अग्नये कामाय पुरोडाशमष्टागवालन्नर्पवेद्यङ्का मानोपलमे दग्निमेव कामक्रस्वेन भागधे येनोपधावति स एवैनङ्कामेन समर्थ युपैनङ्कामानमत्यग्नयेशमष्टागवालन्नमेवेन भागधे येनोपधाते नैवेन्द्रियं वीर्यं भाद्रुपदेष्ठाय पुरोडाशमष्टागवालन्नर्पवेदभि मोक्ष्यमेव न भागधे येनोपधावत स एवास्मात्रक्षागं देवुष्मदये भवत्येवात्मयदे पुरोडाशमष्टागबलन्मन्दग्रस्वेन भागधे येनोपधावति सन्दृचन्दधाति रोचत एवात्मये चैतस्वदेवेन भागधे येनोपधावति स एवास्मिन् देरो ददादितेजस्वेव भवत्यग्नये सा ह्यादिपुरोडाशमष्टाकलन् हन्त्यग्रस्वेन भागधे येनोपधावति नयग मुशीक्षते अग्नयेऽन्नपदे पुरोडाशमुष्टाकपालन्निर्वभेद्यः काम एतान्नवान्स्यामित्यग्निमेवान्नवन्दः प्रश्नेन भागधे येनोपधावति स एवैनमन्नवन्दङ्करोत्यन्नवानेव भवत्यग्नादाय पुरोडाशमुष्टाकपालन्निर्वभेद्यः काम एतान्नादस्यामित्यग्निमेवान्नादक्प्रश्वनभागे येनोपधावति स एवमन्नादङ्करोद्यनादेव भगवत्यग्नयेन्नपदये पुरोडाशमुष्टाकपालन्निर्वभेद्यः काम एतान्नपदि स्यामि ग्नमेवान्नपति सोमानाय प्रोढाष्टागवालये पावका यामानाय निर्भमेवा स्पुन्देन तथा दियरत्नये पावकाय वाचमेव स्तुन्दरेन तथा दियरग्नयुदेव स्पुन्देन चक्षुष्टामो न य नोढाशुमेकादश रसवानेव पुरोडाशपृष्टाकपाले कामे भवत्यग् रसदे पुरोडासपृष्टाकपालेत् संग्रामे संयत्तेवायम्बा एषीर्षदीर्सङ्ग्रामं जगीर्ष खलु वै देवानां वादसुमेव निर्दिष्टभागो वारो निर्दिष्टभागोऽन्यस्तो सम्भवन्त अनात्मत्वात् तेन जनानां प्रत्ययियोऽधिष्मते परोढाय समष्ट आगपालनिर्भवेत्यस्य अग्निरुद्रो तेज्ञो हवत्रोत्वायत फल आदिज्ञानोत्रुक्तेया हस्पत्तमहान कार्यं यत्पारधेयमघिरोव्रोत्री देक्रमपुरो मिथ्येतेन देवा रक्षणा निदन्धा युन्त्य सुप्रध्वमञ्ज्ञे अक्श्वाद्यो नेरसि जातवेदः न गायित्र्यादृष्टभाजगत्या देवेभ्यो हव्यम्बहतप्रधान्येवेण प्रजनेत्येष न्यं दक्षिणा पवित्रं वैहरण्यं पुनात्येवेन माद्यमस्यान्नं भवत्येतामेव निर्भवे प्रजागामस्यान्तोलिं प्रजाय हैरण्यं दक्षिणा पवित्रं वैरण्यं पुरादेवी प्रजामयीश्वरं द्वादश कपालं निर्भवेत् पुत्रे धाते गाय पुन्नवदैवास्मिन् दशकपालो विराजैवान् एकादशकपालस्तुष्टुदैवास्मिन् जगत्यैवान् एतामिष्टियाभिन् भवत्य भवान् स्वर्का लोकाच्छिद्यते ेवस्य प्राह्मनाय प्रान्नमक्षन्नाध्ययमष्टाकपालन् नृपवेदैष्वानलन् ष्टाकपालो भवत्यष्टाक्षला गायत्रीत्वादशपालो वैश्वानरो भवत्सराक्षरवाग्नेर्यवामेवैमैत्य राज्यमस्यान्नं भवति वैश्वा नकपालं नवभेन्मार्तकौ सप्तकपालं रामकामाहवीयेवैश्वा न ै पादशकपालो वैश्वानरोदृशमासाणैवास्मै च जाता विश्वामै मा भवति मरुतो वै देवाना विषो देवविषे नैवास्मै मनुष्यविषमो वृन्दे सप्तकपालो भवति सप्तकणामै मरुतो गणश एवास्मै च जाता करोति ङ्ग्रामो वादिवैश्वा नरन्द्रादश्वारस्वे देवानामायतनवेदस्माद्वायतवादशदेवानामेवायसङ्ग्रामस्मिद्विषाणैश्वा नरं द्वादश पूर्व वित्रीष्वा नरसंवत्सरमेवात्त्वा नवरणं वरस्ता दिनैनं वरुणो गृह्णात्यां वा एष प्रतिगृह्णा दयोऽपिं प्रतिगृह्णा दैष्व नलन्द्वादशिपालेदव्यं प्रतिगृष्यवदिताबृह्णा धनाभ्यं प्रतिबृम्णात्यात्मनो वा एष मात्रामात्मदयौभयादप्रतिबृम्णां वा नलन् द्वादशपालयादप्रतिगृह्य संवत्सरो वा निर्वेष्वा नरसंवत्सरस्वदितमेव प्रतिबृह्णा धनात्मनवमात्रामात्मजवैश्वा नलन् द्वादशपाले सनिश्यम् स्मि प्रजा भवन्ति यो वे प्रयुज्य प्रतिष्ठानो वेभवत्येतमेव वै श्वानलम्बरागत्य निर्भवेद्य प्रतिष्ठित्य देवमेवपासपे प्रहनोति अहीन्द्रं शरं निर्भवेत् पशगाम ऐन्द्रा वै पशव इन्द्रमेव स्वेन भागधे येनोपधावति स एवास्मि पशोन् प्रयच्छति पशुमानेव भवति स्वादेवास्मि योने इन्द्रायेन्द्रियापते पुरोडाशमेकादशकवारं निर्भवेत् पशुकाम इन्द्रियं वै पशवैन्द्रमेवेन्द्रिया येनोपधावति समा इन्द्रियं पुशोन् प्रयच्छति पशुमानेव भवति इन्द्रायघर्भवते पुरोडाश्चमेकादश गन् निर्ववेत् ब्रह्मवर्त्यसं वै घर्मेन्द्रमेव घर्मं तत्त्वेन भागधेन्दराजस्यैवीन्द्रायर्कवदेशेवार्कं तेन भागधे ये स एवास्मान्नं नाय एव भवतीन्द्राय घर्मवदे पुरोडाश्वमेकादशवारन् निर्भवेदीन्द्रायेन्द्रियाव इन्द्रायार्कवदे भूतिकामो येन्द्राय निर्मभते निर्मपतिशिर एवास्य तेन करोतिन्द्रायेन्द्रियावद आत्मानमेवास्य तेन करो दीरिन्द्रायार्कवदे भूत एवान्नाद्ये प्रतिष्ठतिखवेवेन्द्राय गो होम दे पुरोगाशमेकादशिखवारणभे पात्मना गृहीतस्यात्मात्मावागुहेन्द्रमेवागु होम शुष्वेन भागधे येनोप धावधि देवेन गुहसोमं जनेन्द्राय वैमृताय गुरु रोडाशमेकादशकवालन् निर्ववेद्य मृदकस्वेन भागदे येनापधावीन्द्राय रात्रे पुरोडाशमेकादश कपालन् नर्पवेद् वापरि ै महायज्ञस्यान्त्यर्काश्वमेधावन्द्रमेवार्काश्वमेधवन् दर्गस्वेन भागते येनोपधापति स एवास्मान् ततो महायञ्ज्यामयच्छुवै न ज्ञानमती महा इन्द्रायान्वृज वै पुरोडाशमेकादशकपालन् निर्ववेदग्रामकामेन्द्रमेवान्वृषेन भागधे येनोपधावति सेवास्मि सजाता नेन्द्राणि सेनान्द्राणि वै सेनायै देवतेन्द्राणि स्वेन भागधे येनोपधावति शैवास्येन गोत्राधिष्कन्नान्यमे हस्तता ल्पजापदधिष्ठण्डवामेवेन पागते येनोपदावति स एवास्मिन् मन्यं मनो दधाममेतामेव निर्वपेद्यो हतमना श्रियं वाता वा एतस्मादपक्रान्दान्यषहतमना स्वयं पाप इन्द्रमेव मन्यवन्तं मनस्वन्द्रस्वेन भागजे येनोपधावत सैवास्मिन् मनो ददा दिनह दमना स्वयं वा भवतीन्द्रायधात्रे पुरोडाशमेकादशकपालेद्यः कामये ददानगा मामे प्रजा सुरीनेवदाता रघस्वेन भागजे येनोपधावत सैवास्मिदानगामा प्रजाकमास्मे प्रजा भवन्तीन्द्राय प्रदात्रे पुरोडाशमेकादशकपालन् निर्व वेद्यस्मै कृत्वमेव प्रदियेन्द्रमेव प्रदाता रक्ष्वश्व न भागदे येनोपधावति ैवास्मिन्परीयाज्ञानवाक्ये अकरोत्पजके सेलम्बज्यो भोग्या ऐन्द्रोगप्रवादक्षेभप्रजापदम्बुलपादा प्रजापद्यायरे दशाञप्रदाय लघ्वेरा स्यात्तस्मा एकमैन्द्रमेकादशकपालन् निर्ववेदीन्द्रमेव स्वेन भागधे येनोपदावधिवास्मिन् दधाति रेव पुरो वाक्या त्याज्यभागास्यात्मा रहस्पत्यश्च विष्णुर्यज्ञा देवताभिश्चैवेन चाभिचरति वा रहस्पत्यश्च ब्रह्म वै देवानां बृहस्पतिर्ब्रह्मणैवेन वै परस्तादभिचलन्तमभितवाक्ये कुर्याद चयुक्त्या नो देवताभिरेव देवता प्रतिजरति यज्ञेन यज्ञं वाचा वाचं ब्रह्मणा ब्रह्मस देवताश्चैव यज्ञं च मध्यतो न कृतश्च वैष्णवमेकादशगवादं नेद्यं यज्ञानपदमेदज्ञः सर्वा देवताविष्णलयज्ञाञ्च विष्णुं च स्वेन भागधे येनपधावता वेवास्मि यज्ञं प्रयच्छ लोपेन वैष्टां मृगे चरणवे चक्षुष्कामार्वै चक्षुषा मनुष्या विवश्यन्ति यज्ञस्य देवां चैव विष्णं च स्वेन भागधे येनोपदावधिता देवास्मिन् चक्षत्तत्रस्यक्षुष्मानेव एतत्रे द्वयदात्यमनृढस्तं दुलामिथुना देवास्मे चक्षप्रजनै हृदन्दे यस्यक्षस्ये चैवास्मेवनन्दैन्द्रियं वै वीर्यं वृन्दे भ्रादृ यो ल्पादुर्येमानेनास्येन्द्रियंतामस्यमाने ददत्याज्ञा वैष्णवमष्टागपालं नर्मवेत्रादस्य वनस्याले सरस्वत्यार्वागास्याष्टागबालो भवत्यष्टाक्षरागायत्री गाय ्राजस्य वलं राजस्य वनमेव देनाप्नोत्याज्ञा ृतीयसवनन्तरमेव सेनाप्नोति देवताभिरेव देवता यज्ञम् वाचा वाचम् ब्रह्मणा ब्रह्मकपालैरेव छन्दाकृनोति सवनानि मैत्रावरुणमेककपालम् निर्मवेत् वशायै कालैवासौ प्रातृ यस्य वशानु बन्ध्यासो देवै शैतस्यैककपालो भव जनैकपालैः कुशुमरत्या भ्यरोचस्मै देवाप्रायश्चित्यमेच्छन्दस्मा एतगुणसोमा रौत्रञ्जले सोमा रौत्रञ्जलेत् सोमं चैवेन भागदे येनोपदावैवास्मिन् ब्रह्मवत्सुधत्तो ब्रह्मवत्येवर्णमासे पौर्णमासेव ब्रह्मवत् ब्रह्मवत्सस्य परिगृहीत्यै श्वेतायै श्वेतवत्सायब्रह्मेव ब्रह्मवत्सन्दरो दुश्चर्मा भविष्यामे देवतया पुरुषा ैवास्मि देवतया पुरुषरुया एवं देवतायै निष्क्रिय रुत्रायापि दुधाति तादिकार्त्यमार्च सोमारोह ञ्जनं निर्वपेद्यो गामयाभिमं वा सो गच्छत्य सोमा देवासंक्रीणामुदये सुभवदेव सौमात्रौर्वा एतङ्ग्रोश्ववादे यौवन्निर्वाहो तावण्यनैव वन्यमात्मानग्रमारोञ्जनं निर्वपेद्यकामये तस्वे स्म यतमे प्राधुर्यलयेयमिति वेदम् परिह्यार्थमर्थन्यादद्धन्नार्थम् वे परिहसृणीयादद्धन्नार्थमिथस्यादन्नस्व एवास्मायतमे प्राधुर्यनयति मेकादशकपालम् निर्वपेयन्मारुत सप्तकबालं ग्रामकामैन्द्रं चैव मरुतश्च स्वेन भावधे येनोपधापति स एवास्मैच्छन्ति ग्राम्येव भवत्याहवनीय ऐन्द्रपति श्रेयधिकारे मारुतम् वा विधृत्यै सप्तकबालो मारुतो भवति सप्तगणा वै मरुतो गणश एवास्मै जातानवरुन्दे नोच्यमानासादयति विषयमेवास्मानोत्मानङ्गरात्येतामेव दक्षत्र त्याश्राव्यप्रोयान् मरुतोन् मरुद्हेत्याश्रावयादिन्द्रमदण्डारिहाणास्ति रजे यथायधादे यथा इदं कल्पयेति कल्पन्त एवेन्द्रमेकादश एवास्मे प्रयच्छन्ति ग्राम्यभवत्यैन्द्रस्यापदाय वैश्वरदेवस्यावत्यैवास्माधायणातार्नवेष्टाता मार्ता कविदेवतया सुजालामृत एव स्वेन भागधे येनोगावत एवास्मै स जातां प्रयच्छन्ति ग्राम्येव भवति प्रियति याच्यानुवाक्ये भवतः प्रियमेवेन पदा पुरोनुक्या भवति द्विपद एवावृन्धे दुष्पदा यात्या च एव पुशोनुवृन्धे देवासुरासंयुक्ता सन्ते देवाभिप्रिया सन्दे ष्टाकपाद्रपदेशमेकादशरन्दतो वा इन्द्रं देवाद्यैश्चायाभिषमजानतयस्य ष्टागवालन् जलमिङ्गाय वर्तते पुरोढाशमेकादशकवालम् वरुणाय दृत्यवते जलमिन्द्रमेवैनम् भवतञ्जष्ठ्याय समानाभिसञ्जानते वसिष्ठसमानानाम् भवतिप्रजापते सवेदपुत्रः पितरगुंसमातरगुंसौलभुवत्सभवत्पनर्मगः सद्यामोर्नादन्तरिक्षकौथसु वः विश्वा भवत्सा भवत् संयिता नोनर्या पुरोणि अन्यर्भवत्र युवदीनयीणागो सत्रा चक्राणोऽ हिरण्यवाणि मोदये सवितारमुपह्वये स चेत्ता देवतापदम् श्वक्षयस्य देव भोरे रयाधिया वामपाधिस्याजिनोषि महिनी स्वामाधस्वा विचारिणि प्रदिष्टभिः सर्जुनी अयन्यस्वभोन्यथा यस्मेतस्मा इन्द्रम् मृतलेस्रह्मासु वा विश्वान्यदसावनानन्द्रम् प्रतिमानानिन्द्राय ब्रह्म जगदज्ञान्दर्य ब्रह्मकृतस्य ये स्वपक्षास्तत्रेन्द्रोदेव्यास आकृणामि तन्मेषस्वसि विविष्टहव्यम् अर्धम् नृत्वांसामिद्वान् तव समतवीयान्वस्य रजतः परागे किमित्ते विष्णोपरिचक्षम् भवत्रयत्वक्षे श्रीहा ब्रह्मणाकृधिलवृषसोऽपि दिद्युः वेरवेशयसहस्रा हव्यमातदा पुत्रा ृभ्य आपरौ शिकुहरीणाम् अश्वाकु समस्यायविष्टये द्रोणे विनोदयु सुखोचिसंयुवे हनि राधार्णसमाद इन्द्रे सुन्दरविवाजादे स्तोता स्यात्पावतो मघो नः श्रुतस्या इतिप्तः